श्री परमात्मने नमः श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवते महापुराणे सप्तमस्कन्धे त्वात्रिंशोऽध्यायः देवी उवाच शृण्वन्तु निर्जला सर्वे व्याहरन्त्यावचो मम यस्य श्रवणमात्रेण मद्रूप प्रबध्यते अहम् एवास पूर्वं तु नान्यत् किञ्चिन्नगाधिपे तदात्मरूपम् चेत् परब्रह्मैकनामकम् अप्रतर्क्यं मदेशम् अनौपम्यं मनामयम् तस्य काचित् शक्तिर्मायेति विश्रुता न सती, सती सा नो भय आत्मा विरोधतः एतत् सुलक्षणा काचित् वस्तुभूतानि सर्वदा पावकस्योष्ठदेवेयम् कृष्णाशोरीव दीधितिः चन्द्रस्य चन्द्रिकेवेयम् न मेयम् स जाधुवा तस्याम् कर्माणि जीवानाम् जीवाकाला च सञ्जरे अभेदेनैव विलेना स्युः सुषुप्तो व्यवहारवत् स्वशक्ते च सभायोगात् अहं बीजात्मतां गताय स्वधारावर्णार्थस्य दोषत्वं च समागतम् चैतन्यस्य सभायोगन् निमित्तत्वं च गच्छति परिणामा चे समवायितु समवायित्वमुच्यते केचित् तां तपैत्याहु तमः केचित् जडं परे ज्ञानं मायाम् प्रधानं च प्रकृतिं शक्तिमप्यजां विमर्शयति तां प्राहु शैव अविद्यामितरे प्राहु वेदतत्त्वात् चिन्तकः एवं नानाविधा निस्युर्नामान्यनियमादिषु तस्याजत्वं दृश्यत्वात् ज्ञाननाशा ततोऽस्ति चैतन्यस्य न दृश्यत्वं दृश्यत्वे जडमेव चैतन्यम् पर्वेण प्रकाशितम् अनवस्था दोषतत्वाेनापि प्रकाशितम् कर्मकर्तृ विरोधः स्यात् तस्मात् तद्दीपवत् स्वयं प्रकाशमानम् अन्येषां भाषकं विद्धि पर्वत अत एव च नित्यत्वं सिद्धसंवित्त जाग्रप्नसुशोक्यादौ दृश्यस्य विभिचारतः संविदो व्यभिचार नानुभूतोऽस्ति कर्हित् यदि तस्याप्यनुभव तर तर्ह्ययम् येन साक्षिणा अनुभूतः स एवात्र शिष्टसंविद्वरा अत एव च नृत्यर्थं आनन्दरूपता च स्यः परप्रेमात्मदत्ततः मा न भूवम् हि भूयासम् इति प्रेमात्मनिष्ठितम् सर्वस्यान्यस्य मिथ्यात्वात् असङ्गतम् स्फुटम् मम अपरिच्छिन्नताप्येवम् अत एव मता मम तच्च ज्ञानम् दात्मधर्मो धर्मत्वेदडत्तात्मनः ज्ञानस्य शेषत्वं न दृष्टं न च सम्भवे चिद्धर्मत्वं तथा नास्ति चितश्चिन्न हि भिद्यते तस्मात् आत्मा ज्ञानरूपः सुखरूप च सर्वदा सत्यपूर्णोऽप्यसङ्गल विभर्जितः स पुनः कामकर्माद पूर्वाभूत संस्कारा काल कर्म विपाक अविवेकाच तुश्रावण प्रजाते अबुद्धि पूर्व सर्गो कथित नियमया प्रोक् मूपलिक अव्याकृतं तदव्यक्तं माया सबलमित्यपि रोचते सर्वशास्त्रेषु सर्वकारणकारणं तत्त्वानाम् आदिभूतं च सच्चिदानन्दविग्रहम् सर्वकर्म घने भूतम् इच्छाध्यानक्रियाश्रयं हृङ्कारमन्त्रवाचं तत् आदि तत्त्वं तदुच्यते तस्मादाकाश उत्पन्नः शब्द तन्मात्ररूपकः भवेत् स्पर्शात्मको वायुः तेजोरूपात्मकं पुनः जलं रसात्मकं पश्चात् ततो गन्धात्मिकाधराय शब्दैकै गुणः आकाशो वायुस्पर्शरवान्वितः शब्दस्य च रूपगुणम् तेजैत्युच्यते बुधै शब्दस्पश्च रूपरसै आपो वेदगुणास्तुतः शब्दस्पश्च रूपरस गन्धैः पञ्चगुणाधराय तेभ्यो भवन्तसूत्रं यल्लिङ्गं परिचक्ष्यते सर्वात्मकं तत् सम्प्रोक्तं सूक्ष्मदेहोऽयमात्मनः अव्यक्तं कारणो रेऽं सप्तोक्तः पूर्वमेव हि यस्मिन् जगद् बीजरूपं स्थितं लिङ्गोद्भवो यतः ततः स्थूलानि भूतानि पञ्चीकरणमार्गतः पञ्चसङ्ख्यानि जायन्ते तत्र कारस्तथोच्यते पूर्वोक्तानि च भूतानि प्रत्येकं विभजितविधाय एकैकं भागमेकस्य चतुर्धा विभजे गिरे तस्वेतरद्वितीयांशे योजनात् पञ्च पञ्चते तत्कार्यं च विरा देह स्थूलदेहोऽयमात्मनः पञ्चभूतस्य सहस्रांशै श्रोत्रादीनां समुद्भवः ज्ञानेन्द्रियाणां राजेन्द्र प्रत्येकं मिलितैस्तु तैः अन्तःकरेण वेकं स्यात् वृत्तिभेदाचतुर्विधम् यदा तु सङ्कल्प विकल्पकृत्यं तदा भवेत् तन्मनैत्यभिख्यम् स्याद्बुद्धिसैन्यं च यदा प्रवेत्ति सुनिश्चितं संशयहीनरूपम् अनुसन्धानरूपं तत् चित्तम् च परिकीर्तितं अहङ्कृत्यात्मभृत्या तु तदहङ्कारताङ्गतम् तेषां रजुं च दातानि क्रमात् कर्मेन्द्रियाणि च प्रत्येकं मिलत स तु प्राणो भवति पञ्चधा हृदि प्राणो नाभिस्थस्तु समानकः कण्ठदेशेऽपि उपादानः ्याद्या न सर्वशरीरगः ज्ञानेन्द्रियाणि पञ्च पञ्चकर्मेन्द्रियाणि च प्राणादि पञ्चकमश्चैव धिया च सहितं मनः एतत् सूक्ष्मं शरीरं स्यान् मम लिङ्गं यदुच्यते तत्र या प्रकृति प्रोता सारा जन् विविधा स्मृता सत्त्वात्मिका तु माया अविद्या गुणमिश्रिता स्वाश्रयं या तु संरक्षेत् सा मायेति निगद्यते तस्यां यत् प्रतिबिम्बं स्यात् बिम्बभूतस्य चेशितुः स्वरस्थमाख्यातः स्वाश्रये ज्ञानवान् परः सर्वज्ञ सर्वकर्ता च सर्वान् अविद्यायां तु यत्किञ्चित् प्रतिबिम्बं निगाधिप तदेव जीव सन्न्यं स्यात् सर्वदुःखाश्रयं पुनः द्वयोरपिह सम्प्रोक्तम् देहत्रयमविद्यया देहत्रयाभिमाना चिन्माना च अप्यभूताम् मनमत्रयं पुनः प्राज्ञस्तु कारणात्मा स्यात् सूक्ष्मदेही तु तैजतः स्थूलदेही तु विश्वाख्य त्रिविध परिकीर्तितः एवम् ईशोऽपि सम्भ्रीशसुत्र विराट्पतिः प्रथमो वृष्टिरूपस्तु समस्यात्मा परस्तुतः स हि सर्वेश्वर साक्षात् जीवानुग्रहकाम्यया करोति विविधं विश्वम् नाना भोगाश्रयं पुनः मच्छक्ति प्रेरितो नित्यं मयि इति श्रीमद्देवी भागवते मा पुराणे अष्टादशसहस्रं संहितायां सप्तमस्कन्धे देवी गीतायाम् देव्या दृष्टि समष्टिधूपवर्णनं नाम श्रीजगदम्बिकायार्पणमस्तु